श्री गणेशाय नमः श्री गौरी शङ्कराभ्याम् नमः अथ श्री शिव महापुराणे विद्येश्वरसंहितायाम् द्वितीयोऽध्यायः मुनि प्रश्नानाम् उत्तराणि श्रुतो वाच साधु पृष्टम् साधवो वैलोक्य हितकारकम् गुरु स्मृता भवेत् वेदान्तसार सर्वस्वम् पुराणं चैव सर्वाघोघोद्धारकरम् परत्र परमाथरम् कलिकर्म च विध्वंसि यस्मिंश्चिव यश परम् विजृम्भते सदा विप्र चतुर्वे फलप्रदम् तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमः सर्वोत्तमस्य चैवस्य ते यास्यन्ति सुसद्गतिं तावत् विजृम्भे पापम् ब्रह्महत्या पुरस्सरम् यावच्छिव पुराणं हि नो देश्यति जगत्यः तावत् कवि महोत्पा संचरिष्यन्ति निर्भयः यावच्छिव हि नो देष्यति जगत्यः तावत् शास्त्राणि विवदन्ते परस्परम् यावच्छीव पुराणं हि नो देशति जगत्यः तावद् यमचा क्रूरा सञ्चरिष्यन्ति निर्भयः यावच्छीव पुराणं हि नो देशति जगत्यः तावत् सर्वपुराणानि प्रगर्जन्ति महीतले यावच्छीव पुराणं हि नोदेष्यति जगत्यः तावत् सर्वाणि तीर्थानि विवदन्ते महीतले यावच्छीव पुराणम् हि नोदेष्यते जगत्य तावत् सर्वे मुधा विवदन्ते महीतले यावच्छिव हि नो महीतले तावत् सर्वाणि क्षेत्राणि विवदन्ते महीतले यावच्छिव हि नोदेष्यति महीतले तावत् सर्वाणि पीठानि विवदन्ते महीतले यावच्छीव पुराणं हि नोदेष्यति महीतले तावत् सर्वाणि दानानि विवदन्ते महीतले यावच्छीव हि नो दस्यति महीतले तावत् सर्वे च विवदन्ते महीतले यावच्छणम् हि नो दश्यति महीतले तावत् सर्वे च विसिद्धान्ता विवदन्ते महीतले यावच्छ पुराणम् हि नो देष्यति महीतले अस्य शैव पुराणस्य कीर्तनश्रवणाद्विजः फलं वक्तुं न शक्नोमि कस्मै न मुनिसत्तमः तथापि वक्ष्ये किञ्चित्तु वो नघ चित्तमाधाय शृणुत व्यासेनोक्तं पुरामभ एतच्छ पुराणं हि श्लोकं श्लोकार्धमेव च यः पठेद् भक्तिसंयुक्तः स पापान्मुच्यते क्षणः एतश्चिव पुराणं हि यप्रत्यहम् अतन्द्रितः यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते एतश्चिव पुराणम् हि यो भक्त्यार्चयते सदा दिने दिने स्वमेधस्य फलं प्राप्नोत्य संशयम् एतच्छिव पुराणम् यः साधारणपदेशया अन्यत शृणुयात् सोऽपि मत्तो मुच्चेत पातक एतच्छिव पुराणम् यो नमस्कुर्याद् है सर्वदेवार्चनफलम् स प्राप्नोति न संचयः एतच्चिव पुराणं वै लिखित्वा पुस्तकम् स्वयं यो दद्याचिव तस्य पुण्यफलम् शृणु अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च यत्फलम् दुर्लभम् लोके तत्फलम् तस्य सम्भवेत् एतच्च पुराणम् हि चतुर्दश्यामुपोषितः शिव भक्त सभायाक उत्तम प्रत्यक्षर तो गायत्री पुश्चरिया फलत इुक्ता खिलान काणता उपोषित चुश्या रात्रो जागरण यठे शुणुिया वादम्यहम कुेत्रखिल पुण्यतीर्थेष्वनेकशहे आत्मतुल्य धनं सूर्य ग्रहणे सर्वतो मुखे विप्रेभ्यो व्यासमुखेभ्यो दत्त्वा यत्फलमश्नुते तत्फलं सम्भवे तस्य सत्यं सत्यं न संशय हे हि गायते योप्यहर्निशम् आज्ञां तस्य प्रतीक्षेरं देवा एतच्छीव पुराणं हि पठन् शृण्वन्धि नित्यशः यत् करोति सत्कर्म तत्कोटि गुणितम् समाहिते पठे यत्तु तत्र श्रीरुद्रसंहितां सब्रघ्न सब्रह्मघ्नोऽपि पूतात्म त्रिभिरेव दिनैर्भवेत् तं रुद्रसंहितां यत्तु त्रिपठेत् प्रत्यहं मौनि स्वकामान् अखिलां लभेत् तां रुद्रसंहितां यत्सु तं पठेत् वट बिल्वयोः प्रदक्षिणां प्रकुर्वाणो ब्रह्महेत्य निवर्तते कैलाससंहिता तत्र ततोऽपि परमास्मृता ब्रह्मस्वरूपिणी साक्षात् प्रवार्थ प्रकाशिक कैलाससंहिता यासु माहात्म्यं वेत्ति शङ्करः कृष्णं तदर्थं व्यास तदर्थं वेदम्यहं विजः तत्र किञ्चित् प्रवक्ष्यामि कृष्णम् वक्तुं न शक्यते यद् ज्ञात्वा तत्क्षणात् लोके चित्तशुद्धिम् अवाप्नुयात् न नाशेति यत् पापं सोद्रिसंहिताद्विजः तन्न पश्याम्यहम् लोके मार्गमाणोऽपि सर्वदा शिवेनोपनिषत् सिन्धु मन्थनोत्पादितामुदाय कुमारायार्पितां तां वै सुधाम् पित्वा मरो भवे ब्रह्मे हत्यादि पापानां निष्कृतिं कर्तुमुद्यते मासमात्रं संहितां तां पठित्वा मुच्यते ततः द्विष्प्रतिग्रह दुर्भोज्य दुरालापादिसम्भवम् पापं सकृत् कीर्तने दये स्वहिता विनाशये शिवालये बिल्ववने संहितां तां पठेत् यहे स्वयत्फलम् अवाप्नोति तद्वाचोऽपि न गोचरे स्वहितां तां पठन् भक्त्या यच्छाधि भोजये द्विजान् तस्य ये, ये, द्विजान, ये पितरः सर्वे याति शम्भ परं पदम् चतुर्दश्यां निराहारो यः पठेत् संहितां च दिल्मूले शिव साक्षात् स देवै प्रपूज्यते अप्यन्ना स्वयिता तत्र सर्वे काम फलप्रदा उभय विशिष्टे विद्येये लीलाविज्ञानपूरिते तदिदं चैवमाख्यातम् पुराणं वेद संमितम् निर्मितम् निर्मितं शिवेनैव प्रथमम् ब्रह्म संमितम् च तथा वैनायकमथौमिकम् मात्रम् रुद्र एकादशकम् कैलासं शतरुद्रकम् कोटिरुद्रसहस्राध्यम् कोटिरुद्रम् तथैव च वायुवीयम् धर्मसन् पुराणम् इति भेदतः संहिता द्वादश मिता महापुण्यतरामताय तासां सङ्ख्याम् ब्रुवे विप्रा शृणुताय दरतुखिलम् विदेशम् दशसहस्रम् वै रुद्रं वैनायकं तथा औमम् मातृपुराणाख्यम् प्रत्येकाष्टसहस्रकम् त्रयोदशसहस्रं वै रुद्रैकादशकं द्वियः षट्सहस्रं च कैलासं चतुरुद्रं तदर्शकम् कोटि रुद्रं त्रिगुणितम् एकादशसहस्रकम् सहस्रकोटि रुद्राख्यम् उदीतम् ग्रन्थसङ्ख्यया वायवीयम् खाब्धिशतम् धर्मम् दविसहस्रकम् तदेवम् लक्षसङ्ख्याकम् शैवम् सङ्ख्या विभेदतः व्यासेन तत्तु संक्षिप्तम् चतुर्विंशत्सहस्रकम् शैवम् तत्र च दूतम् वै पुराणम् सप्तसंहितम् शिवेन कल्पितम् पूर्वम् पुराणं ग्रन्थसंख्यया चतुकोटि प्रमाणम् हि पुरासृष्टो सुविस्मृतं। व्यस्तेष्टादश धा चैव पुराणे द्वा परादिषु चतुर्लक्षेण संक्षिप्ते कृते द्वे पायनादिभिः प्रोक्तम् चैव हि चतुर्विंशसहस्रकम् श्लोकानां संख्यया सप्त संहितं ब्रह्म सम्मितम् विश्व विद्यराख्या तत्री जेया द्वितीका तृतीया शुद्राख्या कोटी रुद्रा चतुर्थी पंचमी चोम व्याख्या षष्ठी कैलास सैनिक सप्तमी वावीआ सप्त संहिता मत सहित सह दिव्य पुराण शिव सैन्यकम बरीवर्ती ब्रह्मतुल्यं सर्वोपरि गतिप्रथम् एतश्चिव पुराणं हि सप्तसंहितमादरात् परिपूर्णम् पठेद्य स जीवन्मुक्त उच्यते श्रुतिस्मृति पुराणेति असमशतानि च एतश्चिव पुराणस्य न कलामपि शैवं पुराणमलं शिवकीर्ति व्यासेन शैव प्रवणे न च सङ्गृहीतं सङ्क्षेपतः सकलजीव गुणोपकारम् तापत्र यज्ञदां स तां हि स्विकैतवो धर्मय प्रगीतो वेदान्त विज्ञानमय प्रधानमत्सरान्तर्बुधवेद्य वस्तु सत्सङ्कुप्त मन्त्रग त्रिवेर्गयुक्तम् शैवम् पुराण तिलकम् खलुषत् पुराणम् वेदान्तवेद विलसत् परमस्तु गीतम् यो वै पठे च शृणुयात् प्रिय शम्भुप्रिय स्वलभेत् परमगतिं वै इति श्री शिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् मुनि प्रश्नोत्तरवर्णनं नाम द्वितीयोऽध्याय श्रीगौरीशङ्करार्पणमस्तु